म् ओम नमश्चण्डिकायै ओम् श्रीदुर्गायै नमः अथ सप्तश्लोके दूरम् शिव उवाच देवित्वम् भक्तसुलभे सर्वकार्यविधायिनी कलौहिकार्यसिद्ध्यर्थम् उपायम् रोहि यत्नरः देव्युवाच शृणुदेव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् मया तवैव स्नेहेनाप्यम् वा स्तुतिः प्रकाश्यते ओम् अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायणऋषिः अनुष्टोच्छन्दः श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः श्रीदुर्गाप्रीत्यर्थम् सर्तश्लोकी दुर्गापाठे विनियोगः ओङ्णिनामपि चेतांसि देवी भगवती हि सा बलादाकृष्यमोहाय महामाया प्रयच्छति दुर्गे स्मृता हरसि हरसी भीतिमशेषजनो स्वस्थ स्मृता मतिमतीवशु दारिद्र्युखयहणि कादनियाोपकारक सदाद्रचित्ताल मंगल्ये शिव सर्वासाधि श्ये त्र्यंब गौरी नारायणि नमोस्त शरणागत दीनार्त परित्राण दीनार्तपरित्राणपरायणे सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्धिते भयेऽभ्यस्त्राहिनो देवि दुर्गे देवि नमोऽस्तु ते रोगाणशेषानपहंसितुष्टा रुष्टा तु कामान् सकलानभीष्टान् पामाश्रितानाम् न विपन्नराणाम् पामाश्रिताख्याश्रयताम् प्रयान्ति सर्वा बाधाप्रशमनम् त्रैलोक्यस्याखिले त्वयि एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् इति श्रीसप्तश्लोकी दुर्गा सम्पूर्णा